श्रीहरये नमः अथ पञ्चमोऽध्यायः नारदौ उवाच पौरोहित्याय भगवान् ब्रतःकाव्यलाशुरैः षण्ढामर्खौ सुतौ दैत्यराजगृहान्तिके तौ राज्ञा प्रापितं बालं प्रह्लादं नय गोविधं पाठयामासुः पाठ्यान् अन्यांश्चासुरबालकान् यत्तत्र गुरुणा प्रोक्तं शुश्रुवेनुपाट च न साधु मनसा स्वपरा सद्ग्रहाश्रयम् ये गता सुरराट्यपुत्रम् अङ्कमारोप्य पाण्डवां पप्रश्च कथ्यतां वत्स मन्यते साधु यद्भमान् तत्साधु वनं गतो यत् नारद उवाच श्रुत्वा पुत्रगिरो दैत्यपरपक्षसमाहिताः जहासबुद्धिर्बालानां भिद्यते परबुद्धिभिः सम्यक् बालो गुरुगेहे द्विजादिभिः विष्णुपक्षै प्रतिच्छन्नैर्न भिद्येतास्य धीर्यता गृहमानीतमाहूयः प्रह्लादं दैत्ययाजकाः प्रसस्य ष्णयावाच समपृच्छन्तसामभिः वत्सप्रग्लादभद्रं ते सत्यं कथय मामृषा बालानतिकुतस्तुभ्यम् एष बुद्धिविपर्ययः बुद्धिभेतपरकृत उदाहो ते स्वतो भवत् भण्यतां श्रोतुकामानां गुरूणां कुलनन्दना प्रह्लादौ उवाच स्वः परश्चेत्य पुंसां यन्मायया कृतः विमोहितधियां दृष्टस्तस्मै भगवते नमः स यथानुव्रतः पुंसां पशुभुत्तिविद्यते अन्य एष तथान्योऽहम् इति भेदगता सयेश स एष आत्मा स्वपरेत्य मुह्यन्ति यद्वर्त्मनिवेदवादिनो ब्रह्मादयो शेषभिनन्ति मे मतिं यथा भ्राम्यत्ययो ब्रह्मन् स्वयम् आकर्ष सन्निधौ तथा मे भिद्यते चेत्तश्चक्रपाणेर्यदृश्चय नारदौ उवाच एतवद्ब्राह्मणाय उक्त्वा विररामहामतिः तं निर्बत्स्यात् कुपितः सधीनो राजसेवकः आनीयतामरेवेत्रमस्माकम् अयसस्करः कुलाङ्गारस्य दुर्बुद्धे चतुर्थोऽ दैतेयसन्धनवने जातोयं कण्टकद्रुमः यन्मूलोन्मूलपरशोर्विष्णोर्नाळायितोर्भगः इति तं विविधोपायै भीषयं तर्जनादिभिः प्रह्लादं ग्राहयामासत् त्रिवर्गस्योपपादनं ततयेन गुरुर्ज्ञात्वा ज्ञातज्ञेयच्चतुष्टयं दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतं पादयोः पतितं बालं प्रदिनन्द्यासिषाशुरः परिष्वज्यचिरं दोर्भ्यां परमापनिर्वृतिम् आरोप्याङ्कम्मवघ्राय आसिञ्चन्विकसद्वक्त्रम् इदमाहयुधिष्ठिरां हिरण्यकशिर्पुर्वाचां प्रह्लादानुश्च तां तातस्वधीतं किञ्चिदुत्तमं कालेनैतावधायुष्मन् यतः शिक्षद्गुरोर्भवान् प्रह्लादौ वाच श्रवणं कीर्तनं विष्णो स्मरणं पादसेवनं अर्चनं वन्दनं दास्यं सख्यम् आत्मनिवेदनम् इति पुंसार्पिता विष्णो भक्तिश्चेन्नवलक्षणा क्रियते भगवत्यद्धा तन्मन्ये धीतमुत्तमं विसंज्ञैतत्सुधवचो हिरण्यकसिपुस्तधा गुरुपुत्रमुवाचे तं वृषा प्रस्फुरिता धरः ब्रह्मभन्तो किमेतत् ते विपशं श्रयता सताम् असारं ग्राहितो बालो मामनाधृत्य धुर्मते सन्ति ह्यसाधवो लोके दुर् दुर्मैत्राश्चद्मवेषिणः न मत्प्रणीतं न परप्रणीतं सुधो भदत्येक्ष तवेन्द्रशत्रो नैसर्गिकीयं मतिरस्य राजन् नियश्च मन्युं गततास्म मानः भूय आकासुरः सुतं ते कुतो भद्रा सती मदिर्नकृष्णे परतस्वतो वा मिथोऽभिभ्येदगृहव्रधानाम् अधान्तगोभिर्विशतां तमिश्रं पुनः पुनः शर्वितशर्वणानां न ते वितुस्वार्थगतिं हिविष्णुं दुरासयो ये बहिरर्तमानिनः अन्धा यदान्तैरुपनीयमाना वाची सदन्त्याम् उरुधां निबद्धाः नैषामतिस्तावत् उरुग्रमाग्रें स्पृसत्यनर्ताभगमो यधर्तः महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीतयवत् इत्युक्तो परतं पुत्रं हिरण्यकसिभूरुषाम् अन्तीकृतात्मा स्वोत्सङ्गात् निरस्यतमशीतले आहामर्षरुषाविष्टक्कषायीभूतलोचनः वद्यतामास्वयं वद्य निस्सारयतनैर्निरताः अयं मे हित्वा स्वान् सुहृदो विष्णोर्दासवधश्च ते विष्णोर्वासाद्वसौखिं नो करिष्यत्य समञ्जसः सौहृदं दुस्थ्यझं पित्रो परोप्यपत्यं हितकृत्यधौषधं स्वदेकजोभ्यामयवत्सुतोहितः चिन्त्या तदङ्गं यदुतात्मनोहितं शेषं सुखं जीवदि यत् विवर्जनात् सर्वैरुपायैर्हन्तव्यैः सम्भोजसयनासनैः सुहृलिङ्गदरः शद्रुर्मुनेर्दुष्टमिव इन्द्रियं नैरृतास्ते समादिष्टा भद्रावै शूलपाणयः दिग्मदंश्चकरालास्यास्ताम्रश्मश्रुसिरोरुहाः नदन्तो न दन्तो भैरवान्नाथांश्चिन्दिन्दीतिवादिनः आसीनं साहनं शूलै प्रह्लादं सर्वमर्मशो परे ब्रह्मणि अनिर्देश्ये भगवति अखिलात्मनि युक्तान्मन्यपला आसन् अपुण्यस्येव सत्क्रियाः प्रयासे पहते तस्मिन् दैत्येन्द्रक्परिसङ्कितः सकारतत्त्वधोपायान् निर्बन्धेन युतिष्ठिरान् दिग्गजै दन्तसूकैश्च अभिचारावपातनैः मायाभिस्सन्निरोधैश्च गरतानैरभोजनैः हिमवायुवग्निसलिलैः पर्वधाक्रमणैरपि न सासकयधा न अपापम् असुरसुतं, सुतं चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यताम् एष मे भक्वसाधूक्त वधोपायाश्च निर्मिताः तैस्तैर्द्रोहैः असद्धर्मैर्मुक्तस्वेनैव तेजसाम् वर्तमानो विधूरे वैभालो बाल न विश्रमति मे नार्यं सुनः सेप इव प्रभुः अप्रमेयानुभावोऽयम् अकुतश्चिद्भयोमरः नूनमेधद्विरोधेन मृत्युर्मे भविता न वा इति तं चिन्तया किञ्चित् म्लानश्रियमधोमुखं चण्डामर्गौ औसनसौ विविक्त इति होचतुः जितं द्वयैकेन जगत्त्रयं ्रुवोर्विजृम्बणस्त्रस्तसमस्तदिष्ण्यपं न सत्यचिन्त्यं तव नात चक्ष्महे न ना वै सुशीनां गुणदोषयोः पदम् इमं तुपासैर्वरुणस्य भत्वा निदेकि भीतो न पलायते यथा बुद्धिश्च पुंसो वयसार्यसेवया यावद्गुरोर्भार्गव आगमिष्यति तथेति गुरुपुत्रोक्तम् अनुज्ञाये धमब्रवीत ह्यस्योपदेष्टव्यां राज्ञां ये गृहमेधिनां धर्ममर्थं च कामं चानुपूर्वसः प्रह्लादायोच्चतु राजन् प्रसृतावनताय च यथा त्रिवर्गं गुरुभिः आत्मने उपशिक्षितं नसादुमेने साधु मेने तच्छिषां द्वन्त्वा रमोपवर्णितां यदाश्चार्यः परावृत्तो गृहमेधीयकर्मसु वयस्यैर्बालकैस्तत्र सोपहूतकृतक्षणैः अत तां वाचा प्रत्याहूय महाबुधः उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव ते तु तद् गौरवात् सर्वे त्यक्तक्रीडा परिच्छदाः बाला न दूषितधियो करुणो मैत्रो महाभागवतुम्भागवते महापुराणे सप्तमस्कंदे प्रह्लादाचरीते पंचम सर्व गोपीका जीवन स्मरण गोविंद गोविंद गोविंदा गोविंदा, के जय